गणेशपुराण क्रीडाखंडम अध्या नईटी थ्री क उवाच ततस्तु पंचमें वर्षे प्रवृत्ते मुनिबालाह उश काले गुणेश सगम्य गृहमति प्रातःका शे प्रोतिष्टोतिष्ट हे सखे उद्धापय निजम् चुस्ते शिवामपि तानुवाच शिवावाक्यं निद्रावो न समागता क्रीडायामेव सक्तानां चपलानां दिवानिशं कथं याहीत्यनुदिदे निर्लज्जा मूढभावत त ऊचुः मातर्न वाक्येन कोपोनो नो जायते क्वचित् वयं ते बालका किं न त्वं वा जननी न किम् अस्मिंस्तव शिष्यौ सकृतं सर्वेषां मानसं सदा येन पश्याम पुरदो दिवानक्तं निरन्तरं विनयनं च समाधानं ननश्चेदसि जायते श्रुत्वा वाक्यानि तेषां दुःप्रोद तिष्ठत्तदाशिशुः लिलिङ्गबहिरागत्य गुणेशस्ताय परस्परम् ययोर्बहिर्मुदा युक्दा धृत्वा हस्तान् परस्परं द्विभागीभूय चिक्रीडोर्नानायुद्धविचेष्टितैः मस्तकं मस्तकेनैव वक्षसा वक्ष एव बाहुभ्यां चैव बाहू निजग्नुस्ते निजघ्नुस्ते परस्परम् जलेन रजसा चैव कन्दुकैर्मुष्टिभिस्तथा कर्दमैर्गोमयैके जितान्दोलनविकर्षणैः कोलाहलं प्रकुर्वन्तशृङ्गवंशरवानपि दैत्यभूता जयं प्रापुर्देवभूताः पराजयम् एवं युध्यत्सु तेष्वेवं खड्गनामाहासुरः आयया वुष्टरूपेण विशालेन नभःस्पृशा पुच्छवादेन महता पतिता वृक्षसञ्चयः शूलदन्तो ललज्जिह्वः समहान्तं रवं कृत्वा तमधावद्गुणेश्वरं प्रतिशब्देन सहसा नादयन्विदिशो दिशः सर्वे मुनिपुत्रा भयातुराः धावधावेदितं बालं चुक्रुषु तेषामाक्रन्तिदं श्रुत्वा सहसा स कृत्वा महत्तरं जूपमुड्डीयतं जखानः मुष्टिखादेन शिरसि वज्रेणेव महाचलं स भिन्नहृदयो दुष्टो वामन्रदं मुखाद्बहु कृत्वा घोरं महाशब्दं पदिदोद्धरणीतले विचाल्य चरणग्रीवामाक्रन्द्य च पुनः पुनः स्वीयं देहं समास्थाय तत्याजीवितं क्षणाद दशाष्टयोजनायामः पादयन् वृक्षसञ्जयान् उद्धूलरजोभौमं गगनं प्रावृतं क्षणाद तदेकपादात्पदिदा जन्तवोधपतत्रिणः तं तथा पतिदं दृष्ट्वा सर्व एव कुमारकाः साधु साधु शिवापुत्र महादैत्यो निपातितः दृष्ट्वा महान्तं तं दैत्यं वयं भीत्या पलायिताः कथं त्वया महादैत्यपौरुषेण कनीयसा अतोऽयं विस्मिता सर्वे पुनस्ते समुपागदाः इत्युक्त्वा ते पुनः क्रीडां चक्रु सर्वे यथा पुरा कषं यन्दोङ्घ्रिकमले धृत्वा केचित् परस्परं तत्तस्तस्य सखाप्रायान् मृदप्रदिकृदीच्छया छायारूपं समास्ताय महाबलपराक्रमः पादापादेन तस्याशुचकम्पे शेषविग्रहः व्योमस्प्रमस्तको दुष्टो गुणेश पृष्ठतो ययौ चायां तदीयामाविश्य पादयामा सतं तदा इतरेषामदृश्योऽसौ मा मायाविबलवत्तरः यथा यथा नृत्यते स तथा दैत्योऽपि नृत्यति तं पतन्तं गुणेशं ते निरीक्ष्य मुनिबालकाः कुचुस्तं धाविधा केजित् केजिच्च दुःखिदाभृशम् पदं वा पदसेनाधक्वसामर्थ्यं गतं तव वारं वारं स्खलसि किं प्रियेषु च सखिष्वपि तदो बालो ददर्शासु दशदिक्षु समन्ततः सामर्थ्यादग्रदो यादुमियेष नाशकच्चसः पुनश्च प्रणिधानेन समन्धादवलोकयन् छायाप्रविष्टं तं दैत्यं गुणेश्वरः गण्डशैलं समादाय स मृदश्चूर्णतां गतः महद्रूपं समास्ताय निजं खलः सपर्वतान् प्राणिसञ्चयान् तन्मेधसा च रक्तेन धरणी च गुणेश्वरः रक्ततां समनुप्राप्तौ वसन्ते किं एवं तं विनिहत्याशु गुणेशो लीलयारमद तद एको वृषस्कन्धःसूकरास्यो गजोदरः गण्ठशैलारजयिव श्वासादस्य चलन्ति च चञ्चलाख्यो महादैत्यो बालरूपधरोऽविशद तेषु नानाविधा क्रीडा दर्शयामासलाकवाद महाबलो महामायः प्रोदयामास कांश्चन चरणं कस्यचिद्धृत्वा चकर्ष मुनिबालकम् उभौ करौ विधृत्वैव कस्यचिन्मस्तके चिन्मस्तकेहनद, यस्य नृत्ये धरा सर्वाकम्पदे स्म ते धर्मे मृत्तिकां सर्वे चर्चयन्ति स्वविग्रहे चर्चयते स्वाङ्गं चन्दनेनेव भाग्यवान् तदस्ते कन्दुकं कृत्वा तेन क्रीडामधारभन् कन्दुको व्योममार्गस्य बालत्यक्रो स्पृशत्करं कृत्वा श्ववच्चतं सकन्दुकः आरोहको बलाद्भूमौ निक्षिपेत्तं च कन्दकम् अपरो दास्ये दुर्ध्वमागतं सोऽपि वा पुनः यद्धस्ते कन्दुकशोधबालमारुह्यतं त्यजेद भूमौ निपतिदं बालमादायते न ताडयेद तेषु मध्ये पलायत्सु यस्य लग्नस्य कन्दुकः तेनापि व्योममार्गस्थ कार्यो यस्य करं स्पृशेद हस्तेनायादि चेत् तं तु कारयेत् येन हस्ते धृतः मारुह्य पूर्ववत्क्षिपेद कदाचिकुक क्षिप्त गुेश व्योमनी चंचल नृतस्दा सुरा भारेणाक्रम्य दम देवुवाच दुष्टदानव सहस्व मे दुष्ट वर्गसेर्भगस त्यक्तं त्यक्तं कन्दुकं स गृह्णादिस्वकरे पुनः मुहोर्तद्द्वयमेवं हि चिक्रीडे दुष्टदानवः प्राह सन्मुनिबालस्ते गुणेशं तं तथा गतं तदो गुणेशो दैत्यं तमारूढो दृढविक्रमः चञ्चलश्चञ्चलो जादौनेदुन्दूरे मुदान्विदः व्योममार्गेण सहसा बालाभूमिगदाययुः विमानवत्पक्षिवच्च स जगामत्वरान्विदः ततो निवृत्तास्ते बाला, बाला शोचमाना ययोर्गृहान् स्थितास्तत्रैव केचिच्च प्रतीक्षन्तो गुणेश्वरं तदो गुणेशस्तं ज्ञात्वा मनसा दुष्टदानवम् हिमवत्सदृशम् भारं चकारसहसा विभुः भारेण पदितो दैत्यप्रावदत्तम् उत्तरस्वमहाभारं गमिष्यन्ति ममासवः दयां कुरुष्वदिने त्वं प्रपन्ने शरणं तव एवं वदन् मुमूर्चासौ ततो बालो दधारतं भ्रामयामास बहुशोगरुडो भुजगं यथा तत्याज दूरदेशे तं चञ्चलं दुष्टदानवम् खंडे चंचल वधो चंचलवधो नामवध्याय ओम।